ब्राह्मणो द्विपदाम् श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् गुरुर्गरीयसाम् श्रेष्ठः पुत्रस्पर्शवताम् वरः स्पृश तु त्वाम् समाश्लिष्य पुत्रस्पर्शात् सुखतरः स्पर्शो लोकेन विद्यते त्रिषु पूर्णेषु प्रजाताहमरिन्दम इमम् कुमारम् राजेन्द्र तव शोक वाजिमेधस्य शत सङ्ख्यस्य इति वागन्तरिक्षे माम् ननु नामाङ्कमारोप्य स्नेहाद् ग्रामान्तरम् गताः मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः वेदेष्वपि वदन्तीमम् मन्त्र ग्रामम् द्विजातयः जात कर्मणि पुत्राणाम् तथा अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे आत्मा वै पुत्र नामासि सजीव शरदः चाक्षयम् तस्मात् त्वम् जीव पुत्र सुसुखी शरदाम् त्वदङ्गेभ्यः प्रसूतोऽयम् पुरुषात् पुरुषोपरः सरसी वामलेत्मानम् द्वितीयम् पश्यवै सुतम् यथा मृगयाम् परिधावता अहमासादिता पितुराश्रमे उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका विश्वाची चघृताची च तासां सा मेनका नाम ब्रह्मयो निर्वराप्सराः दिवः सम्प्राप्य जगतीम् विश्वामित्रादजी जनत् श्रीमान् ऋषिर्धर्मपरो वैश्वानर इवापरः ब्रह्मयो निः कुशो नाम विश्वामित्र कुशस्य पुत्रो बलवान् कुशनाभश्च धार्मिकः गाधिस्तस्य सुतो राजन् विश्वामित्रस्तु गाधिजः एवम् विधः पिता राजन मेनका जननी वरा सा प्रस्थे सुशिवे मेनकाप्सराः अवकीर्य माम् याता परात्मजमिवासति पक्षिणः पुण्यवन्तस्ते सहिता धर्मतस्तदा पक्षैस्तैरभिगुप्ता च तस्मादस्मि ततोहं ततोऽहम् दृष्टा काश्यपेन महात्मना जलार्थमग्निहोत्रस्य गतम् दृष्ट्वा तु पक्षिणः न्यासभूतामिव मुनेः प्रद दयावतः समारणिमिवादाय समाश्रममुपागमत् सा वै सम्भाविता राजन्ननुक्रोशान् महर्षिणा तेनैव स्वसु देवाहम् विश्वामित्र सुता चाहम् वर्धिता मुनिनान् वर्तमानाञ्च दृष्टवानसिमाम् नृप आश्रमे पर्णशालायाम् कुमारीम् विजने वने धात्रा प्रचोदिताम् शून्ये पित्रा विरहिताम् मिथः वाग्भिस्त्वम् सूनृताभिर्मामपत्यार्थमचूचुदः अकार्षीस्त्वाश्रमे वासम् धर्मकामार्थ निश्चितम् गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः साहङ्कुलञ्च शीलञ्च सत्यवादि त्वमात्मनः स्वधर्मम् च पुरस्कृत्य त्वामद्य न पुत्रमभिजानामि त्वयि जातम् शकुन्तले असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः मेनका निरनुक्रोशा बन्धकी जननी तव यया हिमवतः पृष्ठे निर्माल्यमिव चोज्झिता विश्वामित्रो ब्राह्मणत्वे लुब्धः कामवशङ्कतः मेनकाप्सरसाम् श्रेष्ठा महर्षीणाम् पिता च ते तयोरपत्यम् कस्मात् न लज्जसे विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् क्व महर्षिः क्वचमेनका। चैवा चैवाग्र्यः साप्सराः कृपणा तापसी वेषधारिणी अतिकायश्च पुत्रो बालोति बलवानयम् कथमल्पेन कालेन शालस्तं इवोद्गतः सुनिकृष्टा योनिः पुंसलीव प्रभाषसे यदृच्छया कामरागाज्जाता सर्वमेतत्परोक्षम् मे यत्त्वम् वदसि तापसि नाहम् त्वमभिजानामि यथेष्टम् गम्यताम् त्वया शकुन्तलोवाच राजन् सर्षपमात्राणि परिच्छिद्राणि पश्यसि आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि मेनका त्रिदशेष्वेव त्रिदशाश्चानु जन्म दृष्यन्त तव जन्मनः क्षितावटसि राजेन्द्र अन्तरिक्षेऽचराम्यहम् आवयोरन्तरम् पश्य मेरुसर्षपयोरिव महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च भवनान्यनुसंयामि प्रभावम् पश्य मे नृप सत्यश्चापि प्रवादोऽयम् यम् प्रवक्ष्यामि तेन घ निदर्शनार्थम् न द्वेषाच्छ्रुत्वा क्षन्तुमर्हसि विरूपो यावदादर्शेनात्मनः पश्यते मुखम् मन्यते तावदात्मान मन्येभ्यो रूपवत्तरम् यदा स्वमुखमादर्शे विकृतम् सोऽभिवीक्ष्यते तदान्तरम् विजानीते आत्मानम् चेतरम् जनम् अतीव रूप सम्पन्नो अतीव जल्पन् दुर्वाचो भवति हविहेठकः मूर्खो हि जल्पताम् पुंसाम् श्रुत्वा वाचः शुभाशुभाः अशुभम् वाक्यमादत्ते पुरीशमिव सूकरः प्राज्ञस्तु जल्पताम् पुंसाम् श्रुत्वा वाचस् शुभाशुभाः गुणवत् वाक्यमादत्ते हंस क्षीरमिवाम्भसः अन्यान् परिवदन् साधुर्यथा हि परितप्यते तथा परिवदन्नन्यान्स्तुष्टो भवति दुर्जनः अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् एवम् सज्जनमाकृष्य मूर्खो भवति निर्वृतः सुखम् जीवन्त्य दोषज्ञा मूर्खा दोषानुदर्शिनः यत्र वाच्याः परैः सन्तः परा नाहुस्तथाविधान् अतो हास्यतरम् लोके किञ्चिदन्यन्न विद्यते यत्र दुर्जनमित्याह दुर्जनः सज्जनम् स्वयम् सत्यधर्मच्युतात् पुंसः क्रुद्धा दाशी अनास्तिकोऽप्युद्विजते जनः पुनरास्तिकः स्वयमुत्पाद्य वै पुत्रम् सदृशम् यो न मन्यते तस्य देवाश्रियम् घ्नन्ति न च लोकानुपाश्नुते कुलवंश प्रतिष्ठाम् हि पितरः पुत्रमब्रुवन् उत्तमम् तस्मात् पुत्रम् न सन्त्यजेत् स्वपत्नी प्रभवान् पञ्च क्रीतान् विवर्धितान् कृतानन्यासु पुत्रान् वै मनुरब्रवीत् धर्मकीर्त्या वहान् त्रायन्ते नरकाज्जाताः पुत्रा धर्म प्लवाः सत्त्वम् नृपतिशार्दूल पुत्रम् न त्यक्तुमर्हसि आत्मानम् सत्यधर्मौ च पालयन् पृथिवीपते नरेन्द्रसिंह कपटम् न वोढुम् त्वमिहार्हसि वरम् कूपशताद्वापि वरम् वापि शतात्क्रतुः वरम् च सत्यञ्च तुलयाद्धृतम् अश्वमेध सत्यमेव विशिष्यते सर्ववेदाधिगमनम् सर्वतीर्थावगाहनम् सत्यम् राजन् समम् वा स्यान्न नास्ति सत्यसमो धर्मो न सत्याद् विद्यते परम् न हि तीव्रतरम् किञ्चिदनुतादिह विद्यते राजन् सत्यम् परम् ब्रह्म सत्यम् च समयः परः राजन् सत्यम् सङ्गतमस्तु ते अनुते चेत् प्रसङ्गस्ते श्रद्धधासि न चेत् स्वयम् आत्मना गच्छामि त्वादृशो नास्ति सङ्गतम् पुत्रत्वे शङ्कमानस्य बुद्धिर्ज्ञापक दीपना गतिस्वरः धृष्णु प्रकृतिभावौ च आवर्तारोम राजयः समायस्य यदस्यस्ते तस्य पुत्रो न संशयः सादृश्येनोद्धृतम् बिम्बम् तव देहाद्विषाम् तातेति भाषमाणम् वै मा स्मराजन्मृथा कृधाः त्वामृतेऽपि हि दृश्यन्त पुत्रो मे पालयिष्यति शकुन्तले तव भविष्यति एवमुक्तो महेन्द्रेण भविष्यति न चान्यथा